मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायम् इलेवन् भूगोलवर्णनं श्रीगणेशाय नमः मुद्गल उवाच जम्भूद्वीपेश्वरस्याध नवपुत्रा बभूविरे नाभिः किं पुरुषश्चैव तथा हरिलावृतः हिरण्मयः कुरूरम्यो भद्राश्वकेतुमालकः स्वस्वनामाङ्कितान् खण्डान् पिता तेभ्यो ददौ स्वयम् एवं दत्वा च सप्त इदे प्रियव्रतसुतास्ततः ययुर्वनं तपस्तप्त्वा गणपत्या बभूविरे ययोर्गणेश्वरं धाम ते त्वं ते ब्रह्मवादिनः पुनरावृत्तिशून्यं यद्योगभेदं प्रभावदः जम्बूद्वीपस्य विस्तार एकलक्षं समन्ददः योजनानां तथा दक्षलवणो देनसंवृदः तत्र मध्ये महाशैलो मेरुर्हेमममयः शुभः नानाधातुविजित्राङ्गो नानौषधिसमन्वितः नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः गुहाभिश्च तथा दक्ष नाना नानाजन्तुसमन्वितः दक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः षष्टिसाहस्रमे दस्य योजनानां प्रमाणकम् बहिष्ठितेस्तथा द्वात्रिंशत्सहस्रमधस्थितेः अष्टसहस्रकं चैव योजनानां समन्तदः अध ऊर्ध्वविभेदेन कनकाचलः पद्माकारस्वरूपेण भूमिमध्ये पद्मपत्रसमाने न ह्याकारेण व्यवस्थिताः पर्वताः परितस्तस्य नानाद्धातुमया बभुः तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणां योगिनां रक्षसां चैव च महात्मनां नागेन्द्राणां मुनीन्द्राणां गन्धर्वाणां प्रजापदे पिशाचानां च भूतानां निवासा अद्भुदा बभुः उद्यानानि विचित्रानि देवक्रीडनकानि च जराशोकहराण्येव जलानि खलु कैलासाद्यष्ट शैलेन्द्रा दिक्षु तस्य व्यवस्थिताः तेषु रुद्रादि देवेन्द्रा वसन्तिदिगधीश्वराः मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्टिनः इत्येवं सर्वदेवानां सुखदसगिरिर्बभौ स्य दक्षिणभागे च द्वीपखण्डास्त्रयो भवन् उत्तरे च तथा पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि सम्मतौ मध्ये समन्दतो वर्षयेकस्तस्य प्रजापदेत् एवं खण्डाः समाख्यादा नवद्वीपे मध्यमे हिमाचलादयस्तेषु मर्यादा गिरय स्मृताः द्विसहस्रम् समुत्सेधो प्रजापते अष्टौ चैव प्रविस्तारा महाशैला समन्तदः सहस्रं योजनानां च खण्डे खण्डे च विस्तरः प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च वर्षेषु पर्वताश्चैव नद्यो नानाविधा स्मृताः तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः अजनाभविहीनाश्च खण्डा अष्टौ प्रकीर्तिताः तेषु स्वाभाविकी सिद्धिस्थिरभावेन संस्थिता सदा यौवनयुक्ताश्च नरा नार्यसुरूपिणः देववत्सुखभोक्तारो बभुस्साधुगुणान्विताः परस्परेषु संसक्ताः समकालप्रभोगिनः वर्णाश्रमरताः सर्वे धर्मयुक्तादयान्विताः नतत्र तत्र <स्थारियो> युगधर्मश्च सदा सामान्यधर्मिणां शीतोष्णादिभवं दुःखं नास्ति खण्डेषु मानद एकादशशतान्येव सहस्रं तेषु कुत्रचित् शतानि द्वादशाप्येव त्रयोदशशतानि च शतानि कुत्रचित् पञ्चदशाप्येव प्रजापते शतानि पञ्चवर्षाणि जीवन्ति किलमानवाः मानवाः नाभे जनाभश्च हिमाचलसमीपगः कर्मात्मकः समाख्यादः सर्वमान्यो बभूवः तत्र कर्माणि कृत्वादु नरायान्ति समन्ददः द्वीपेषु खण्डेषु तथा पादाल पादालभूमिषु स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च तेषु भुक्त्वा पुनर्ह्यत्र यान्ति कर्मार्थमञ्जसा अथवा पापकर्माणि कृत्वात्रैव व्रजन्ति ते नरकेषु नर नार्यः पुनरत्र अत्र योगेन योगीन्द्रो भवेद्वै नात्र संशयः गाणपत्यस्वरूपं च तद्भक् लभते नरः अधश्रेष्ठतमः प्रोक्तो च हिमालयः सर्वदादृत्वमापन्नो मान्यस्तेषां प्रजापदे भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः शीतोष्णाधिसमायुक्तो नानारोगसमन्वितः तत्र वर्णाश्च चत्वारस्तेषां वैव्यभिचारतः वर्णा ना नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो अस्मिन् युगभवमानं युगधर्माः समन्ततः नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः बहवोऽग्रे बभुशैलाविन्ध्यसह्याद्रिकादयः तेभ्यः प्रसूदानद्यश्च बह्व्यः सर्वत्र संस्थिताः मिष्टतोया मिष्टतो नरा नराकर्मकरास्तत्र त्रिविधाचारसंयुताः तीर्थानि सर्वदेवानां स्थानानि त्वग्रजन्मनां तत्सेवकानामधिककर्मोद्धफलदानि वै एवमाद्यगुणैर्युक्तो जनाभो वर्ष भरणास्तुज्ञैर्भारतोऽयं प्रकीर्दितः यद् भूमण्डलं कृष्णं कथितं ते समासतः श्रवणात् पठनाच्चापि पापापहरणं भवेद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्रीमन्म उगले महापुराणे द्वितीय खंडेकचर भूगोलवर्णनम ओम